कृष्णयजुर्वेदतैतिरीयशाखायाम् ब्राह्मणभागे द्वितीयाष्टके प्रथमप्रश्नः प्रारम्भः अङ्गिरसोऽसत्रमासता तेषाम् कृष्णिर्घर्मदुःखासीत् सत्ये शेनाजीवत ते प्रवन्न न सत्रमास्मे ्यावौषधेर्न जनयाम इति ते दिवो वृष्टिमसृजन्त यावन्तः शोका अवापद्यन्त तावदीरोषधयो जायन्त सा ता जाताः पितरोविषेणादिम्पन्न साहानिदयुन्दैर रेः ब्रुवन्न इदमिथमखरि वयम् भागधेयमिच्छमान इति पितरोः ब्रुवन् किं वो भागधेयमिति एवनार्त्यस्वित्य ब्रुवन्न एतद्धा गेयम् प्रा यच्छन् यत्पामाश्चि ततो वैदकोषधीरयन् एवम् वेदा सुरन्तेऽस्माकोषदयः ते वत्समुपावासन् सोऽद्वरम् वृणैमारात्री जातन्नदोऽहन् आसङ्गमम् मात्रा सहचराणीसञ्जातम् दशरात्रैर्न दहन्ति दे आसङ्गमम् मात्रा सहचरति तम् प्रजाभिरपानान्वैहीत सो निर्पारभतादाभिवैश्च प्रजापतिरिति सरला राजनृष्टा मृष्टा प्राजापत्येत्याहो यत्र राजनमृष्टा तस्माद्रान्ति कर्मा प्राब्रह्माद्वानीचिकित्सायै जन्म एवम् विद्वानुविचिकीर्षति सोः प्रवीर कस्तमसीति सैव देवादित्यप्रवीरस्वाहेति तत्स्वाहाकारस्य जन्म एवग्रस्वाहाकारस्य जन्मवेद तरोति स्वाहाकारेण तरो वीर्यम् यस्यैवम् विदुष स्वाहाकारेण जिह्वति भोगायैवास्य मदम् भवति तत्स्वाहाहृत्यैपुरुषमृजतमजुहोद सोऽमसृजता द्वितीयमजिहोद सगामसृजता चतुर्थमजिहोद स्वाभिमसृजता पञ्चममजिहोद सजामसृजता सोऽभेद आहुदे स प्रजापतिप्राभिषदप्रवीरी प्रवीद, प्रवीद, इत्य सोऽधेयमभिच्यदिना वेदनिति सोऽ सायमेव दृढ्यञ्जवन् प्राधर्मश्यमित्यप्रवीर तस्मादग्ने साय गुम्होयते सूर्याय प्रातः आग्ने वै रात्रिः हैन्द्रमः सूर्यैः प्रादुहयात् विजयज्ञस्यात् तथा सूर्याय प्रात्रिम् वामनप्रजा प्रजायन्ते ब्रह्मा प्रतिष्ठन्ति यत् सायम् जहोति प्रैवतेन जायते रुदे सूर्यैः प्रादर्जुहोति प्रत्यैपतेन तिष्ठति राधयछलीं वा अस्मादज्ञद्वोरान्नो साय प्राज्ञेयस्वदन्द्यात् अन्यो दृत्यो द्रव्यम्प्रातः ोदृतृत्याजास्मी प्रजयति्योध्याजादेजा प्रजाता सिया प्रतिष्ठा दूष मुकमाहुति यस्मैतद्धरन्तीति तस्मात् विदौषधम् ज्योति तदेव सम्प्रति ततो यथा प्रार्थमौषधम् ीतायन्तान्यप्रमायिका भवतिवर्ज्यते मात्रम् प्रतिशिञ्जयत्कृशकामस्य शान्तिमि अभिरुच्यमेवा यत्प्रति तत्पशव्यम्ब्रह्मवर्तिकः वा एतदस्मान्लोकात् शतकम् अभिध्योदयति अथवा पर्यज्ञि करोतिपर्यज्ञकरोति त्रिया वृत्तियज्ञः अथवा मे अध्यत्वाय तत्प्राचीनमुद्वासयेत् यमानगोषितात्म्येत यद्दक्षिणात्मयेति एषा वेदेवी यज्ञस्य सन्तति इष्टवति सुदृणयति सुदृष्पादस्तशः शिशुरेवावृन्दे सर्वान् पूर्णानुन्नयति धाय अन्यस्मै प्रयच्छति आस्मै वृच्येत देवकारः वृत्ते देवकारः वृत्तिम् प्रीणाति अग्निरभेद् स एकागो समिधमपश्य रामादत्ताग्नाहुयो समयच्छत तत्समिधस्मित्वम् समिधमादधाति समेवेन यच्छति आहुतीनाम् धृत्यग्निहात्र आहुतीनाम् अधिष्ठति ब्रह्मवादना वदन्ति तदेकागो समिधमासा यत्पे आहुति जहोति यामाहुतिम् जुहोतीति यद्धे समिधात् माधुर्यमस्मेत् ष्पादमत् एव चतुष्पदप्रतिष्ठापयति त्याहुवन्न तस्यैवत्येव किं कामे दवादीयान् स्यादिति भूयस्तस्य पूर्वकम् हत्वा उत्तरङ्गनीयोजुयाद् एषा वा अवाच्याहुति तामसुरा तस्ते प्रावन्नस् ते सेवन्जु फरि परैववदि अत्वावसादे तदा विपाया अधो प्रवर्तति करहमध्ये प्रदीक्षते अनाध्यायमेवेन करादि अग्निहाद्रस्य स्थाने रस्ते तत्र छेद यज्ञस्थानमुच्छेद तेजवद् अग्निहाद्रस्य स्थानो इत्पुरवावदि ताञ्त्रत्रयाभिहोयाद यज्ञस्थानमुच्छेद अधिहायपुरवावदनज्योति यज्ञस्थानमेघवरवणति अब प्राद्रव्यमेव पादक्रमाति वाज्येण मुसायमकुमारष्टि एवददेवददाति पोर्थम प्रादात् तदयेत देवद नम्रवादनोदन्दे चतुर्नयति त्रित्योदि अधक्वत्वे आवदी भवति इति रत्नम वैलीश्वर नरहितप्रयाद एवाद्निर्वे ईश्वरः प्रामः दत्ताजकृष्नारी रत्नवेवी ईश्वररदये अवदी लोदि कृतोदि बिनमाष्टि षड्वार्धवीणादितोष्णीम् तत्प्राजापत्यम् तत्कृतॄणाम् तत्प्राश्नादि तद्गर्भाणाम् तस्माद्गर्भान्दाबन्ते तदाजामति तन्मर्ष्याणाम् त्यादि आत्मनो गोधायति स्वमेव वीतिमनुपर्यावर्तते अस्मात् रक्षणार्थ आत्मना वीर्यावत्तरः अथ आदित्यस्यैवावधमनुपर्यावर्तते मत्वा प्रसबन्धे क्षयः परिवृत्तवदति परस्पदयैक्मह झप्प्रध्यः कार्ययो युधा इदमत्पोषोत् समुद्रौ उद्धा समत्सरस्रगागारः तस्मादादिदाग्ने सर्वमेव परिनिष्यन्तं दत्तं भवति एतसां गृहे वात्रमेव दयेन दक्षिणां गुरदे एतप्रदाः आर्यैर्दयेन दक्षिण्यं गुरदे यत्तलोकदादि सादक्षिणा एवन्तर्वै देवा भगवद्मदन तेवराभवनम एतदग्नः पात्रगुणसर्वस्य सेवा संबोधाजादुभवः उस्मादाह षकामस्य एतद्वाग्म् मिथिनम् हे एवम् वेद तत्प्रजयापशुभियते इमामेव पूर्वयाधुवे इमा उत्तरयात्तरमानयति स्मै पशूनवृन्धे शशुनानेव भवति इन्द्रियम् वेदति इन्द्रिया एव भवति दातानवृन्धे राम्ये भवति हेज्ञो वा एषार्णः उपरि अन्तरिक्षम् यो वा अग्निहात्रस्योपसरो वेदा वैरमुपसरोति पृथिवीवीणादि ओश्यति अन्तरिक्षमेव प्रीणादि हत्वापसादिति शिवमेव प्रीणादि एतावाग्म् वेदाज्ञहात्रस्याश्रयम्प्रत्याश्राविदम् मोहदाहब्रह्मा निमेषोपषट्कारः एवं वेदात्येवम् स्माहोपवेशि ी सप्त एवमयदात्मन्मन्वय जायेते न्न प्रजापदौषयात्मन्वे जायेते तस्य वयोमहि आत्मन्वो प्राणानामग्निः ना तनुवैवायोः चक्षुषा जा, ते जाग् हुतारेव तस्यै मे दिव्यायच्छन्ता मम हुतात् जन्ममेति हे प्रजापदम् वृष्टमायिन्न सह यतोनोदयाद् अन्न सहासति तस्य प्रजापति तस्यै प्राणानामहमित्यग्निः अनुवा अहमिति वायो चक्षुषोऽहमित्या प्राति तदग्नित्वम् गौर्वाग्निम् य एवम् वेदगौरज्ञहात्रमिति प्राणापानाभ्यामेवाज्ञिगो समर्थयति अव्यर्थकः प्राणापानाभ्याम् भवति य एवम् वेद तौ वायुरब्रवीद हनमाभजितमिति एवमभ्युक्षवान् ीत मत्यमपादयत् एवं वेद तस्मात्यस्यैवम् हङ्गति दह्यमानम् दुग्धम् एषदेवान्दवः कौष्णवदन्तम् सारस्वतम् विष्यन्दमानम् एतलमसुरः आदुर्वासुरम् बृहस्पतेरुतम् हृदप्रक्राहान्तम् इन्द्राग्नमुपसन्नम् अग्नेः पूर्वाहुः प्रजापतेरुत्तरा प्राचीमावर्तयति देवलोकमेव तेन जयतिवृत्त मनुष्यलोकमेव तेन जयति पूर्वोद्यात् ज्येष्ठस्य ज्येष्ठिनेयस्य योवागतश्रीस्यात् अनिष्ठस्य कानिष्ठिनेयस्य योगोषेत् वायव्यम् वा यदुपदृष्टम् आश्रम् दुह्यमानम् ैकम् दग्धम् हर्यम् न उद्वास्यमानम् आश्रमुन्नीयमानम्पदेतम् सविधप्रक्रान्तम्व्यर्गह्रियमाणम् ऐन्द्राग्नमपसाधितम् सर्वाभ्यो वा एष देवताभ्यो जहोति यो अग्निहात्रम् जहोति यथा लवे धेन दृप्यति तृप्यति प्रजया पशुभिः सुखम् लोकम् जानादि अस्यति पुत्रम् अस्यति पौत्रम् प्रजया विषकर्मथले ज्यायते यस्यैवं विदुषो ओग्निहोत्रम् जुः युजेनहोत्रिजुहोद सजाजुहोदी सोष्णीम् यश्चाजुहोद्यश्चाहुष्पूर्वाहो द्रव्याः तोष्णीमुक्त स्वाहेति सायञ्जहति एत एव स्वाहेति प्रातः एव हितम् प्रजनयति प्रजायते सौर्योऽति यद्यन्ते स्यात्प्रामिदात्मवेद समुभजात्याहेति धा विधेरुष्पति रुद्रेष्वेवास्याग्निहोत्रम् भवति प्रथममित्याः आदित्येष्वेत्रेवास्य देवेष्वग्मोहतम् भवति इतरा मत्युर्वा वैदिनीकेव भवति तस्मिनैस्विधा विधेयुष्पदि इन्द्रहात्रमोहकम् भवति ुष्पदि प्रजापतास्याज्ञाराद्योन्ये ब्रह्मदर्कुलस्य तथाविधे ऋष्पदि ब्रह्मोदम् भवति ुजेन देवम् वेदा तन्त्वारिशिञ्जामीति सायम् परिशिञ्जति सत्यम् द्ेन परिषिञ्जामीति प्रातः तथा वादित्य सत्यम् एव तदादित्येन सायम् परिशिञ्जति अज्ञमादित्यम् प्रातस्य यावदहो रात्रे भवतः तावदस्य लोकस्य आत्मनरिश्चे तान्तानपर्यन्तास्ति यस्यैवम् विदुषात्मवात्मन्य इति दि, द्वितीयाष्टके प्रथमः प्रश्नः समाप्तः